हरि श्री सीता रामचन्द्रः नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे षण्णवतितमः सर्गः त्रस्तानां वन्यवणां पलायन हेतुम् अभिज्ञातुम् श्रीरामस्य सौमित्रीं प्रत्यादेशः लक्ष्मणेन शालवृक्षम् आरुह्य भक्तसंज्ञा तं प्रति सरोच पूर्णोद्गारस्य तान्तरा दर्शयित्वा तु मैथिलीम् गिरिनिम्नगाम् निशतादगिरि प्रसे श्रीतां मांसेन चन्दयन् इदम् मेध्यमिदं स्वतु निष्टप्तमिदम् अग्निना एवमास्ति स सह राघवः तथा तत्र तस्य भरतस्य उपयायिनः सैन्यरेणु च शब्दश्च सा दुरास्तां नवस्पृशौ एतस्मिन्नरे त्रस्ता शब्देन महता ततः अर्जिता यूथ पामत्ता स्व यूथा दु द्रुशः स्वैन्य समुद्धूतं शब्दं सुश्राव राघव सा च सर्वान् यूथ पान्न साच च विप्रहदुतां दृष्ट्वा तं च श्रुत्वा महास्वनम् उवाच राम सौमित्रिम् लक्ष्मणं तीप्त तेजसं हन्ता लक्ष्मण पश्ये हे सुमित्रा सुप्रिया स य भीमस्तनीत गम्भीरम् तुमलः श्रूयते स्वनः गजयूथः निवारण्ये महि च वा महावने वित्रासितानुगासिंहे सहसा प्रधृता दिशे राजा वा राजपुत्रो वा मृगयाम् अर्चते वने अन्यद्वा श्वापदम् किञ्चित् सौमित्रे ज्ञातुमर्हसि सुदुश्चरोगिरि चायम् पक्षिणाम् अपि लक्ष्मण सर्वम् एतद्देशा तत्त्वम् स्वलक्ष्मण सन्तरित स्वालम् आरुह्य पुष्पितं प्रेक्षमाणो दिश सर्व दिशम् अवैक्षत उदन्मुख प्रेक्षमाणो ददर्श महतीं च मम गुजाश्वरथ संवादाम् यत्तर्युक्तां पदातिभिः तामश्वरथ सम्पूर्णां रथ संसे नाम रामाय वचनं चेदमब्रवीत् अग्निं संशयतार्य सीता च भजतां गुहां सज्जं कुरुष्व चापं च क्षरा च कवचं तथा तं राम लक्ष्मणं पत्युवाच हे अङ्गाभेक्ष स्वसौमित्रे कश्चे मां एवम् उक्तः सुरामेण लक्ष्मणो वाक्यमब्रवीत् दिदक्षन् निवताम् तेषाम् कृषि स पावको यथा सम्पन्नम् राजमिच्छन्सु व्यक्तम् प्राप्यभिषेचनम् आवामहन्तुम् समभ्येति कैकेय्या भरत सुतः एष वै सुमहा विराजत्युज्ज्वलस्कन्ध कोविदार ध्वजोरथे भजन्ते यथा कामम् अश्वानारूह्य शीघ्रगणम् एते भ्राजन्ति संवृष्ट गजानारुह्य सादिनः गृहीत धनुषावाम् गिरिम् वीर श्रेयवहे अथवे हैव तन्नद्धौद्यतायुधे अपि नवशमागच्छेत् कोविदारध्वजोरणे अपि द्रक्ष्यामि भरतम् यत्कृते व्यसनम् महेत् त्वया राघवसम्प्राप्तम् सीतया च मया तथा यन्निमित्तम् भवान् राजा चितो राघवशाश्वतात् सम्प्राप्तोऽयम् मरिर्वीर भरतो वध्य एवहि भरतस्य वधे दोषम् नाहम् पश्यामि राघवे पूर्वापकारिणम् हत्वा न ह्य धर्मे न युज्यते पूर्वापकारे भरत त्यागे धर्माश्च राघवे एतस्मिन् निहते कृत्स्नाम् अनुशाधीव सुन्दराम् अद्य पुत्रम् हतम् सङ्ख्ये कैकयी राज मैं पशे दुखात हस्ती भिन्नमिव दुम कैके रानुबंधा सब मेदिनी भेदिनी परुच्य अद्ये मं संयुतम क्रोधम असत्कार मोक्षा शत्रुस्यु कक्षेष्वीव हुताशनम् अद्यैव चित्रकूटस्य काननम् निशितै शरी चिन्तन् शत्रु शरीराणि करिष्ये शोणि चोक्षितम् शरीर्नि भिन्नहृदयान् कुञ्जरान् तुरगान् तथा करिकर्षन्तु नरांश्च नियतान्मया अन्ध्रणोऽस्मिन्न वने स्वसैन्यम् भर्तं हत्वा भविष्यामेन संशयः इत्यार्थी श्रीमद् रामायणे वाल्मीकि अधिकाव्ये अयोध्याकाण्डे षण्णवतितम श्रीसीता रामचन्द्रार्वणमस्तु